अरुणाचल परब्रह्मणे नमः अरुणाचल पञ्चरत्नवार्तिकम् मङ्गलम् सच्चिन्मात्रस्वभावाय नित्यमुक्ताय शम्भवे रमणायात्मनाथाय नमो भगवते सदा ग्रन्थावतरणम् ते नारुणाचलाख्यस्य स्वस्वरूपस्य पञ्चभिः श्लोकैः कृतानुतिस्तस्याः क्रियते लघुवार्तिकम् माण्डूक्योदितम् अद्वैतम् तुर्याख्यम् निष्प्रपञ्चकम् सुसाधनम् स्तुतावश्यामात्मतत्त्वम् प्रपञ्च्यते प्रामाण्यम् युज्यते यस्य यतो वक्त्यत्र सद्गुरुः नित्यानुभूतमात्मीयम् तत्त्वम् शिवम् अनामयम् वेदेन गुरुवाक्यानाम् प्रामाण्यम् मन्यताम् जनः मन्यामहेतुवेदानाम् प्रामाण्यम् गुरुवाक्यतः स्वस्वरूपे तुरीयाख्ये स्थितो यः स भवेद्गुरुः उपदेशस्तदेयो यः सा स्यादुपनिषत्परा विहाय प्रायशो वादान् प्रामाण्याद्वचसाम् गुरोः सिद्धान्ता एव सङ्गृह्य दीयन्ते यत्र